श्रीमद्भागवतो चतुरसस्कन्धनवमोऽध्यायः ध्रुवाच समाधिना नैकभवेन यत्पदं विदूषनन्दादवोर्ध्वरेतस मासैरहं षड्भिरमुस्य पादयोच्छायामुपेत्यापगत पृथग्मतिः अहो ब्रह्ममानात्म्यं मन्दभाग्यस्य पश्यत भवच्छिदपादमूलं गत्वा याचे यतन्तवन् मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभि यो नारदवचस्तस्थ्यं नाग्राहितमम् असत्तमः देवीं मायामुपाशित्य प्रशुब्द इव भिन्नदे सव्ये द्वितीयेऽप्यसति भ्रातृभ्रातेभ्यद्रुया मयैतत्प्रार्थितं व्यर्थं चिकित्सेन चिकित्सेव गतायुषे प्रसाद्य जगदात्मानं तप्सा दुष्प्रसादनं भवच्छिदमया चेऽहं भवं भाग्यविवर्जितः स्वाराज्यं यक्षतो मौढ्यान्मनो मे भक्ति भिक्षितो बत ईश्वराक्षीणपुण्येन फलीकारा निवाधनः मैत्रिवाच न वै मुकुन्दस्य पदारविन्दयो रजोजिषस्तात भवादुषा जनाः वाञ्छन्ति तद्दासमृते समात्मनो यदीक्षया लब्धमनशमिद्धयः आकर्ण्यात्मजम् मायान्तं सम्परेत्य यथागतं राजान सन्श्रद्धे भद्रमभद्रस्य कुतो मम श्रद्धाय वाक्यं हर्षवेगेन धर्षितः वार्ता वार्ताहर्तुरतिप्रेतो हारं महाधनं। सदस्वं रसमारुह्य कार्तस्वरपरिष्कृतं ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोमात्यबन्धुवीं शङ्खदुन्दुविनादेन ब्रह्मघोषेण वेणुवीं निश्चक्रां पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः सुनुतिः सुरुचिश्चास्य महिषौ रुक्मभूषिते आरुह्य शिबिकां सार्धम् उत्तमेना विजग्मतुः तं दृष्ट्वा उपमनाभ्यास आयान्तं तरसारसात् अरुह्यलिपस्तूर्णम् आसाद्य प्रेमविह्वलः परिरेफेङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाश्वसन् विस्पक्षेनाङ्घिसंस्पर्श हताशेषाखबन्धनम् अथा जिघ्रन्मुहुर् मूर्धिं शीतैर्नयनवारिभिः स्नापयामासतनियं जातोद्दाम मनोरथः अभिवन्द्य पितुः पादावाशिर्भिश्चाभिमन्त्रितः न नाम मातरौ सुरे चिस्तं समुत्थाप्य पादावनतं तं अर्भकं परिष्पद्याः दीवेतीवास्मगद्गदया गिरां यस्य प्रसन्नो भगवान् गुणैर्म इत्यादिभिर्हरिः तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् उत्तमश्च ध्रुवश्चो भावयन्योऽन्यं प्रेमविफलौ अङ्गसङ्गादुन्पुलकाम् वस्त्रौघं मुरुहतु सुनीतेरस्य जन्ये प्राणेभ्योऽपि प्रियं सुतम् उपगुह्य जहाबाधिं तदङ्गस्पर्शनिमृतां पयस्तनाभ्यां शुश्रावनेत्रजै सलिलैः शिवैः तदाभिसिञ्चमानाभ्यां वीरवीरशिवोमुहुः तां संसरसुजान्नाम् द्राज्ञीं दृष्ट्या ते पुत्र आर्तितः प्रतिलब्धशिरं नष्टो रक्षता मण्डलं भुवः अभ्यर्चितस्त्वया भगवान् प्रणुतार्तिहा यदनुध्यायितो नो मृत्युं यज्ञो लाल्यमानं जनैरेवं ध्रुवं सम्भ्रातरं नृपः आरोप्यकरणिं शिष्टः स्तूयमानो विषत्पुरं तत्र तत्रोपसंक्लिप्तैर्लसन्नकरतोषणैः तोरणैः समृन्दैः कदलीस्तम्भैः पूगपोतये स तद्भिदये चूतपल्लवं द्वासहस्रं मुक्तादामविलम्बिभिः उपस्कृतं प्रतिद्वारम् पपां सर्वतो प्राकारैर्गोपुरागारैः सातकुम्भपरिच्छदैः सर्वतोऽलङ्कृतं श्रीमन्विमानशुकद्युभि मृष्टचत्वरस्यार्गं चन्दनचर्चितं राजाक्षतैः पुष्पफलैतण्डुलैर्बलिभिर्युतं ध्रुवाय प्रसिदिष्टाय तत्र तत्र पुरस्त्रियः दुर्वापुष्पफलानि च उपजौहुं प्रिञ्जाना वासल्यादाशिषते सिंहस्तद्वल्गु गीतानि प्राविशन्भवनं पितुः महामणिव्रातमये स तस्मिन् भवनोत्तमे लालितो नितरां पित्रा नव सद्य देववत् पयफेन निभासैया दान्तारुक्म परिच्छताः आसनाली महारहाली यत्र लोक्मा उपस्कराः यत्र स्फटिकङ्कुङ्गेषु महामारकेषु च मणिप्रदीपा आभान्ति ललनारत्नसंयुताः उद्यानानि च रम्याणि विचिद्रैर्मरुद्रुमैः कुञ्जद्विहङ्गमिथुनैर्गायन्मद्दमधुव्रतैः वाव्यो वैदुर्यशोपाना पद्मोत्पल्लकुमुद्वतिः अन्तकारण्डवकुलै जुष्टाशक्राभसारसै उत्तानपादो राजऋषिप्रभावं तनि यस्य तं श्रुत्वा दृष्ट्वाद्भुततमं तृपेदे विस्मयं परं विक्षोढ्यवशयं त्रिंतं च प्रकृतीनां च सम्मतम् अनुरक्त प्रजां राजा ध्रुवं चक्रे भुवपतिम् आत्मानं च प्रभुं त्रवियसमाकल्यविशां पतिः वनं विरक्त प्रातिष्ठन् विमृत्सन्नात्मनो गतिं यदि श्रीमद्भागवते महापुराणे पुरं चां चैतायां चतुर्दस्कन्धे चा